नवो नवो भवति जायमानो ह्नाङ्के दुरुषसामेत्यग्रम् भागन् देवेभ्यो विदधात्यायन्प्रचान्द्रमास्तिरते दीर्घमायु नवो॒ नवो भवति जायमानो ह्नाङ्के दुरुषसामेत्यग्रम् भागन् देवेभ्यो विदधात्यायन्प्र चान्द्रमास्तिरते दीर्घमायुः नवो नवो भवति जायमानो ह्नाङ्के दुरुषसा मेत्यग्रम् भागन् अभ्यो विदधात्यायन् प्र चान्द्रमास्तिरते दीर्घमायु